याम् इन्द्रेण प्रेषिताहूतः स्वायुश्चे अश्वम् शभोः चित्रस्य अश्वंशभोः तरुणस्य अश्वम् शभोः हवाहङ्कयाजस्य गर्भाः भुवनत्र गोपाश्वनातिथयः अनुबलानाम् यगुभप्रगितोनपादानः पग्णेन्द्रग्नियत भोगेनामीवाविदयत युक्तास्थवादिवः परमस्यात्मास्तयरन्दरिक्षाणाय आदुमजुरवः ब्रह्मद्रम् महाविरवः अमरे अमहरङ्गम् भजस्य राक्षामणश्चक्रेणीतानाम् कालश्चत्वा बालश्चक्रेणीताम् रक्षश्च प्राश्रमश्चक्रेणीताम् रक्षश्च प्राबलञ्चक्रेणीताम् ओषश्च प्रामश्चक्रेणीताम् आश्रता धराजश्रेणीताम् आत्मा जनोश्च्रेणीताम् श्रुतोश्रणङ्कृतः श्रिवेन्द्रमाहोयवर्णय्यमाहुः त्यमाहु यो देवाः सत्मैवे त्वादयत्वायत्कलीन्द्रियम् सत्सु पुनम जीमहे तस्य भक्षमजमहे साध्युदानासोमस्तुमित्रः अन्यो हस्थीवनाय श्यामलप्रतिलागम्यदानः शेषब्रह्माय लक्षिकः इन्द्रो नामोघे कृते न्दे होयम् इन्द्रवधुरन्मयः हरिदृष्टादृशेन्द्रेनात्वाभिषन्दो हरिवत्सङ्गिनः इन्द्राधिपदेधिपलित्वम् देवानामु हरिवयु महान् आयुस्पन्दम् वच्चस्पन्दम् मनुक्षे इन्द्रस्य राजा भक्षन्शक्रहेण क्षम् भक्षयामिदानामश्वलः अवसानपदे अवसानम् मे विन्द नमो रुद्राय वा स्वपदये आयने विद्रमणे उद्यानेयने आवत्सने विवक्षने सर्वपायशे ान्यप्रदे शमस्तमः वेरे य साधुम् भुतम् जुहाते अभुतम् प्रगीने पवित्रमर्को रजसामानः पुनाजिरे स्वाहा यमा सर्वानुमित्रान् द्विगेन वामगरद्वैलवन्दम् कथम् हरेत्रयस्तम् देव्याम् वामदेव्यैत्रयस्तयस्तभ्यामि आस्वादेव्या योजन्तयः क्षेत्रे दत्त्वा ये चेतुविष्टम्भुवनमाभि स्वाहा हनुमासयज्ञो कृष्णे देवामरुदत्त्वा मार्गः आत्मयत्कन्दागम् च लिखिता प्रजापतेर्वक्षमनुवक्षेदे अनुप्रजयाम् इन्द्रियेण सेवानो यज्ञम् निधारुन्दो परिक्षत्रे प्रतिनिष्ठामि राष्ट्रे प्रत्यक्षे रुत्प्रामिवध परिप्रजायाम् प्रतिनिष्ठा विभव्येश्वमन्याभिवावृधे तदन्यश्चामधिलम् नमो विश्वगङ्गाय नमः अक्कान् च पुत्रि अस्तां दवाय लघनाः समने मा विश्वभूवानां समनो यज्ञपजनेदु अस्ताने एकपाले आस्कनां धारते एवहा करना प्रजहेमहे तेनेवारे च दिनं भागदेयम बहुवा एषाम त्रजाप तनोयाजा इन्द्रजयश्च अज्ञमोदभ्यो देवेभ्यपाः सत्याः आसङ्काजे मयः करदे अवस्त्रः पुरत्यादेव्याभिरजाः सन्नस्तरतो अवस्त्रुधः समज्ञाज्ञभिस्तरे सन्नत्तमनुसौरुयः संवादपाः अवस्तुतः विद्वान् चन्दरप्ये विध्वनशरीराय सत्यप्लीजेभयङ्गमानिग्मगे अपश्चिन्दुलिन्दुमार्गान् हिन्दुराय सत्यलैन्दवीनस्तमसुमनः उमहो दत्वाक्षयामि ब्रह्मप्रतिष्ठामब्रह्मवाजः ब्रह्मयज्ञानाक्षयिणम् यज्ञः पर्वाजन्य स्वाहास्रामश्चाक्षाणम् षक्षणमक्षलोक्षञ्जयज्ञे हरे शङ्कर्मेन्दे महाभक्तुला हैलविश्वनः यामि त्वन्न अयादिभ्यसामि ऐदान्वकालमर्थमेकम् सरञ्जीवम् च सदाम् पल्वनभ्यक्ताः वृणे च भक्ताः ेत्वाहे सतोनाभयम् गृहे मृषमलिः सत्यः वृद्धामृतामहे विषयन्नः गणः स्य कल्पया षगौ जले त्रम् पुरुषसंविव यज्ञः शय्यपुरुषसंविदः अज्ञेन्द्रस्य कल्पया षगौ जलेऽत्र यम् आदित्या सप्पा कृतसत्यय नेवा सह ध्ये षट्वाजायम् मनदाुभ्याम् मोदद्भ्यामक्षेमैर्गतयम् अज्ञम् मासपापेन सह षट् दत्ताभ्याम् करकल्पितानि अक्षाणाम् मध्यम् परिभ्यमाना दूरेभ्यः माधस्पादेन सह यत्वराशसाः श्रेणपादेन सह हरिक्रामादिनः परमेवामृजैनः श्रेरम् अज्ञम्मादपादेन सह यामि सन्ना यत्र बाहुच्युदोच्छयोनिम् यसाधने च अन्योन्यो भवस्य कस्मिन् वयमुपभूतास्तवस्व विश्वलोकेभूतृहस्त्वेद्यनः अनागास्तनवृधानः स्वघुलेन स्वमहाराजन्समलक्षुधाम् अर्गस्वक्षस्वराजन्समदत्वेन अस्तु जानेतान्न सङ्गमने एतञ्जाने कृत्वारिष्ठोराजन्य नमस्ते असुचकृषेभूयतेनः तिदारे नंधाव बावार्चो दुदे, विजोरत्ना भरिलिमान रेत्जा, प्रेक्षन्नों आप्सर्जविनेंगे साथ दुदे, भुपना इत्ना वरुणा निहावदं, अन्वादी एध्याता मिरस्क खागा, आदित्ना नाम उसितलिहेदे, उग्डासुना पाष्चा � यश्चक्रोत्सयनात्मनाः भूणाभिम् सुत्रानिवादनेः आबालिभाे अब्रह्म क्षत्रम् हैलेन्द्राजे प्राणाः अद्रो नवकाशैलेन्द्रियम् सुत्रानिवादनेः आवालिभा महिलैलेन्द्रियम् अवांगच्छ मत्त्वाणदे नागमुदनां सौम्य छत्रगंधानां अज्ञेयप्रियवरवरिष्ठां अवांगच्छ मत्त्वाणदे नागमुदनां सौम्य छत्रगंधानां किल्लब्क्तप्रियमनोवरिष्ठां अवांगच्छ मत्त्वाणदे नागमुदनां सौम्य छत्रगंधानां स्थिरान् देवनां प्रियमनोवरिष्ठां रेणुसंनो प्रजयतवा सौम्याश्रिगमालेभ्यम् कव्याश्रिगमालेभ्यम् दरिदास्वमुखेशायणे हेम पर्णम् वनस्पदे वा अभिनशेयनागमरिः चेपतिः परम्रज्जानुबन्धानाम् चुष्पदेशे आनप्रजागौनागम्यान्ध्वनजिनस्पदिद्यम्बदे वा अभिनश्चेयनागमरिः त्या धना भवने स्वादसमाधाराः कं वत्फलः कं वत्फलमेवावरुन्धे मोञ्जे भवने मञ्जानाः पूर्ज्यमे मावन्धे चित्रा नक्षत्रम् भवने चित्रम् वा एतत्सम् दिनत्वमेधत्वमध्यै पुण्यनामदेव मध्यमश्चये पुण्यामेव कीर्तिमभिनयने अपदाने निर्द्वयस्तमालहंसाुग्रम् वन्यायाः स्वर्गस्य लोकस्य समस्यै केशस्वसुवदे नृन्दते आरम्बाहत्वे आत्मनावहत्यै स्वर्गस्य लोकस्य भवत्यै रात्रिञ्जाहुरे वर्गस्य लोकस्य समध्ये चतुर्थै जादव फलन्दे शरस्य भवान् स्वप्राल्ये तालेभ्यः समाहृता भवन्दे च आवः अन्नम्बा आव्या अन्नम् जायने हेत एव दद्यधाने सदृशावो भवने शिक्ष्णे वक्ष् निरे भगवो भवतः भगव एव चन्द्रम् दधाने रुद्धरविषदत्ताय सर्पिष्वारान् भवति मे धत्वाय चत्वारारिकाश्चम्बे दिशामेव ज्योतिनि दृढे चत्वारि तस्मिन् रचनान्य प्रजापजल् प्रजापजमेवयने भवने भोगेन भवनेभ्यमानफले ह्रस्वश्चिरमहर्षान्महर्षित्वम्महर्षिर्राश्चे महिमानमेवास्वश्चमाहारे मौलक्रामने हो हिरण्यमहवदे हन्न हिरण्यदाये हेत कोदनेन्दराजे हे सोमाकोनः हेतो हिरण्यम् हे देवा चन्द्रे कोरे ब्रह्मे देवेभ्य प्रजापतये कृपच्या सदेवनाभ्यावस्तरेयान् भवजे कलाः ब्रह्म पण्डेभ्यम् भान् कामिदेवेभ्यः प्रजापतये शैलराध्याभगे क्रुमरे ब्रह्मा ब्रह्मणेव देवेभ्य प्रजाहृदये त्रिप्रां मेभ्यम् वध्याये स देवताभ्याविष्टये भवने देवश्च प्राजविलप्रभवेमागत्य प्रदोहे अस्विबाहुभ्यामित्याः अस्विनभिदेवानाम् द्वयो आस्ताभ्यामित्यायते एतद्व्यगत्याः तस्य त्रयोदशो मातामम् युरभस्य विक्षवम् विक्षवम् प्रयोदशनाय उपादधाय नभस्य विक्षमयौ समोगे आदिवाय हिगादेवानसमालित्याः भोजिमे न ततः प्रसादम् परमानमन्देत्याः सत्यम् वा रजम् सत्यमेवेन भजे नालभजे अभिधा अभेत्याः तस्मादत्वमेऽभिकारीतम् वाणि भूतान्यभिभवये भुवनमभेत्याः भोमानमेव किन्ताभेत्याः चिन्तामेवेन करोगे सर्चाभेत्याः भक्तालमेवेन करोगे सोमाज्ञम् वेत्त्वा नरमित्याह अज्ञादेवेन वेष्पा नरेहो सप्रसभमित्याह प्रज एवम् वसुधप्रसगे स्वाहाकृत्याः होम एवास्तेषः नित्याः अस्यादेवेन प्रतिष्ठापयते सर्ण इत्याहमेवा चैलम्बयमायच ृष्येत्त्वा क्षेमायत्रा इयैत्रेत्याः हाशिषमेवैलाशाः चेत् फला देवेभ्य इत्याः देवेभ्य एव जः फलागणे स्वाहा सा प्रजापतिगित्याः सा चावत्यो वा स्पः तच्चगेव देवतायाः लभ्यते क एवेन दोषमध्ययने क्वतुर्भजायाः पुत्रः समुदस्तान् नयते क्व माधुरयाः पुत्रः सपश्चान्नयते पुष्पञ्चमेवात्मा स्वात्मानम् विहतः क्व हम् दण्डिघायमभ्यमे निवर्णैस्थानम् च रक्षम् प्रसोजे फलोक्त परस्पेन रक्षस्य प्रहञ्जे करोतव्यः आत्मानैवास्य भातुर्यमो हन्ते तैभ्यकम् मुदलम् भवने कर्मकम् नैवास्मै साधये को गुश्च नैवत्याः पलोपालाश्व वत्यः ैवा भव धारे अपञ्चमये ब्रह्मा यमानक्रहच्चत्रयेव नन्दधारे अभिकर्त्रयन्द्रभोन्यमानम् अभिरेत्य चत्वारयस्य समक्षन्ते आश्वयनेन सदेन राजपत्रये सहाध्वर्यः प्रस्ताप्रत्यङ्गेन अयगो राजा वृक्षम् वज्जालये राज्यम् माध्वर्यः सत्रगौराजपुत्रः राज्येनैनास्मिन् सत्रम् व्यालये सदयराजवक्त्रये सः ब्रह्मा दक्षिणौ रञ्जन्द्रोक्षरे अनेन मेऽध्य नेष्व हरि ओं राजा मे ब्रह्मा हलमराजोग्रहेनैवास्मिन् वरन्दे सदैव पश्चात्रा अनेन मेऽध्य नेष्व हरि ओं राजा भवने वक्ष्पजाधिकारय भोग्रे दला भगवमानजलाय भोजन्याय भक्तिकायै भोदाय नैवत्येव्यः भोम् भौमानन्दधारे सदय नक्षत्रसङ्ग्रे क्षिणाक्षरे अनेन अयश्वे शरमृषम्भवन्दे क्षदाय पुरन्द्रियः आयुश्वेन्द्रिये भवतिनः ऋषेण स्य स्कन्दने एवं बालेन स्वस्य स्कन्दने हृदस्य स्कन्दने सहस्रमन्दाः सहस्रं विनस्वर्गो लोकः स्वर्गस्य लोकश्चाभिलित्य अवयविदान्वनः अवयविदस्वर्गोलोकः स्वर्गस्य लोकस्य समस्यये स्वर्ग्याजहोदेश्यामः हावन्धे हस्याञ्जहो हस्यामेवैहांस्वम्पयामि चेण ददामे अज्ञ ग स्वाहे चा अनगे सोमा जोगे हरित्र गोरे सरस्वत्य स्वाहे चरस्वगे हो स्वाहे चेहे बृहत् गे स्वाहे च एवञ्जहोरे स्वाहेत्याह अध्य एवं जहोरे हायुवे स्वाहेत्याह आयुव एवं जहोरे मित्रा नि स्वाहेत्याह पित्रा एवं जोगे पुरामि स्वाहेत्याह पुरुणा एवं जहोगे एताध्येवेलं देवदाभ्यो जहोगे जहोरे अस्मेव लोके पुनश्चिरश्चन्द्रे प्रजापर्ये त्वायक्षम्प्राक्षाय प्रत्यङ्गाक्षरे प्रजापतिर्वै देवानादो देव्याय अन्नाज्य देवादस्वो नाम नादो वेव्यावत्तमः इन्द्राज्ञाय लक्षः इन्द्राज्ये वै देवानामो यौ भोज देवानन्दधादे हाय तत्पादस्पदोदनमालित्वाय वैत्य मासुक्तानुमः यवदेव तत्पादस्व प्रतो राजतमः हिप्रेण दृष्टेदः हिप्रेण देवा देवानाङ्गितमानः हिवाकिन्दरे तत्पादश्व प्रदोलाङ्गिरक्षितमः हेवे भवे कालाय हेवा वे देवानाम प्रतितमाणः अवजिमैवाग्निन्द्रे सत्पादपजो नाम अरु वेभ्यस्ता देवे भित्रिपरिष्कालाय सर्वे वे देवाभिः लक्षिणः श्रीमैवाग्धाय सत्पादस्वजो नाम् गिरिरायः रक्षिणः et vandarita sarva sujya ketak ketakari an loga jatraksade hetanadare va jasture dhastalik me jastahode ditya sarva tme dagad namo sarvani hotanubhavayavante brahmavadi namadante ketrajya vaktasrah jagatvade namnyad devata jagastrak samini अस्ते शर्वा देवदा अन्वायच्छाणाः तत्पादस्वे सर्वादेवदा अन्वायच्छाणाः हिरावे रविजोगेद चकन्दयेकन्दये चिरमणानभ्रम त्रे हिरस्वस्कन्दाय अस्कन भगवन देदाये केन द्वरस्य सम्भये तीन ताराय पहेन त्रयस्सा हेत काह केदाये वा अस्कतदाये तरेते रेवे नकुमतते दे ताहो व ताहो यो महास्मिगनाये केताहो लोक्यादि पथोलुमा हो तहो लोक्याये ग अप्रवामेन विद्वांस मेरुंग गस्तावेदे जनस्वयदाये योवागे त्यानायदनेर्जहोदे आविप्रियाविष्ट्या पुरस्ताकृतः यज्ञमुखे निज्ञाणाः ये वर्गस्य लोकस्यामुखे यज्ञायुगिलमान हवसु वर्गान् लोकान् गागरे षगेव्याणाः खगिलमानम् वसुभर्गर्जयने हजुभर्गम् लौकण्डयनेगीयानम् भव अष्टादप्रादिकौशलक्षलौर्वाणि जहोजे अष्टादत्रादिकुशलक्षराजगणे जागलश्व प्राजाहोजे सत्पादेव प्रजापर्ध्वः प्रभ मात्रा प्रभो पित्रेत्याः ये माता असोगिजाः आभ्या वैवे अम्बाने अश्वभिरगौत्याः सा मेघ तत्पायान्ते अत्योजेत्याः सत्पादश्व सर्वान् पशोनक्षे सत्पादश्व सर्वे नाम् पशो नायत्रैष्ठम् गच्छमात्माजे जगेवम् वेदा कर्म सत्रेत्याह स्वमेवाहिमानम् जागच्छाधेत्याह हेतद्वारस्त्वस्य प्रियम् नाधेयम् प्रियनेवेन नाधेयेन तत्पादप्य मित्रौ सङ्गत्या काम् दाते छगे ते पित्रहे भवतः आदित्यानाम् दत्वान् भीत्याह आदित्यामयते स्वाहा स्वाहेयम् राज्ञा होमान् च पूर्व एव चिरम् सङ्गानुमलित्रामये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 एक जित्वा एकऋष जत्वा एहलम् जित्वा एहलम दृष्ट्वा एतृवचनगे एता वा स्वनम् वध्वादे छत्वाश्वप्रभक्त्याबन्धनमागच्छन् सत्वा स्वप्रभक्त्याबन्धनम् व्यजहारे राष्ट्रम् वा स्तुमेधा राष्ट्रे वा एतायच्छन्ते हे त्वं मे धृङ्गच्छन्ते हे ेवने रात्रम् गच्छन्ते अधुरन्न गच्छन्ते राष्ट्रा देवने शिव छिजन्ते पराभागेच्छरे च रमित्राम् निन्देरन्ने अन्ये वा यज्ञः स्वरायच्छन्ते धान्यमाहे ैश्व <Sess -trio> <Sess -trio> सप्तहिलादेव हन्वहमेव देक्षानुवरुन्धे हैवेश्वदेवानिभोने चत्वार्यौ अग्रहणानि सप्तसम्पद्यम् च सप्तवेशे लुण्याः प्राणाः साक्षा प्राणि प्राणान् देक्षा वरुन्धे क्षेतविपुंसङ्गदेवानिभोदे चेतविपुंसेरेव लोकाः ञत्तमः लोकाः इच्छंसः खेलु अध्मो लोकः सत्रेः तद्वद्धस्य व्यक्तवम् सत्सार्यमुच्चरे चकुंशलमोक्षादे चलाकन्नम् विराकेवान्याद्यमवरुन्धे देवदानोदे क्यौ लो देवाः क्यौ देवन्ते श्वेक्षा जगते सप्तवेच्छा प्राणी एव प्राणाेच्छा वृन्धे ोर्णाहुयुरिः कमदमेवाप्नोरेनाहुरिः अस्यामेव प्रजगच्छरे सजापतिकन्दनोदगच्छन् कं वयेष्वैवान्येवोरिगच्छन् षड्येष्वदेवान् जहोरे का गत्वा स्वाहा स्वाहा स्वाहा स्वाहाय स्वाहा कृष्णे स्वाहा नमस्मै स्वाहे प्राणा हे अवीनच्छत्ये वच्चे स्वाहा नित्ये सु हे स्वाहे अत्याह यं वाच्छ तत्पद्ये स्वाहाय स्वाहायगाहे स्वाहेत्याः भाग्ये गणस्वी माले वेदमुच्छदे ओष्ठे स्वाहा ओष्ठय स्वाहा ओष्ठिराय स्वाहेत्याः पृथो वै गोजाः पदुभेव न उच्यच्छदेव स्वाहा तस्यै गुरीवाय स्वाहा तस्य गुरुपाय स्वाहाय स्वाहा यमाय स्वाहेत्याह्यो हे विष्णः सिज्ञा रेलेनोद्यच्छले होन्नात्तमाञ्जुक्तम् गायत्रमष्टाकपालम् राजन्यनुभवजे अष्टाक्षरा गायत्री गायत्रम् राजस्तवनम् रागस्तमना देवेन गायत्र्या छन्दतोऽभिरन्दिवनमेव देनाप्नोजे गायत्री छन्दः सवित्रे प्रसवित्र एकादशकपालम् मध्यन्दिने एकादशाक्षरात् कृत्वमे करे कुपम् माभ्यञ्जनकुन्तवनम् माभ्यञ्जना देवेन कुंसवनः कृच्छुभक्षम् दसोऽज अथो माभ्यञ्जनमेव नाणा स्वादे पृच्छुपञ्चन्दः हरेच्चहादृच्च स्वादशपालवन्धे स्वादशाक्षरा जगते चालपञ्चलेन जगत्याक्षम् दसार्मिणेज हैरान् हैरा हेत्सहालेभव स्वलोकम् कृत्वा स्वयम् हरस्वत्थस्याम् यदा स्वजा भवते प्रक्षालयते आब्रह्मन्त्राम् मरात्मन्मत्याः मम च बन्धभागे तत्माना पुराद्राम् मरात्मन्मवच्छत्यजायता क्षस्रोरामहार्भवजाय रात्याः आरण्यौर्यमानन्दये तत्माना राजन्यभिरक्षस्रोरामहार्भवजायदा सोऽर्भेनुरित्याहन्वायोदधायेदोग्यदा नित्याहत्यैवधादे तस्मानः पुरागोढा न जायता आदुस्वक्षेत्याह अश्व एव जन्धभागे अस्मान् पुराज्वो जायता पुरम् एव लोबन्धभागे तत्मास्त्रीया भावुका चित्तोर्धेष्ठा इत्याह आह्वेतत्र यक्षोर्धयष्ठाजायते यत्रैतेन यज्ञेन वैदन्ते सह योजुवेत्या से योजुवाः अस्माकमात्मानो भावुकः आश्रयजमानस्य वेदो जायतामित्याह आहवेन प्रयजमानस्य वेदो जायते च प्रैतेन यज्ञेनैकामेन कामेन पर्जन्यापरिषत् इत्याहेन कामे हवेन च पर्जन्यापरिषदे यत्रैलेन यज्ञेन ऐलन्ते हरिण्योढदयः पच्यन्तामित्याह हरिण्यो हवेदत्सौढदयः पच्यन्ते यत्रैतेन यज्ञेनैलन्ते योगक्षेमा न कल्पतामित्याह कल्पते हवेदस्व प्रजाभ्यो योगक्षेमः यत्रैजेन यज्ञे ऐलन्ते प्रजापदभ्य हृदयभ्यो यज्ञान् ज्ञापद सः आत्मन्नत्वमेव भक्ता न्न होमानप्रायच्छदय प्रेणावदेलाज्यम् त्वेन कन्दुले फतो राम् वा एतद्रूपम् कर्तण्डुलाः कर्तण्डुलेभोगे फतोदत्वे नादेभोगे वृषा नाम्ब एतद्योपम् शत्रुसुराः शत्रुसुगेर्जोगे वृषा नेव दत्रे नादे कालेर्जोगे आदित्यानाम्ब एतद्योपम् आदित्यामेव दत्रे नादे कलम्भेर्जोगे सुम्ब एतद्देवानाम् रूपम् एकम्बाः क्षत्राणाम् नक्षत्राणेव नादे तत् प्रजापुलेक्षत्रवः युज्वोगे प्रजापति नैवलत्रे नादे ैव एतद् अष्टस्यैन्धाने धराजकृष्णे प्रजाबले रष्टागत्य मेघालन्न कैलवै वैज्ञान् रक्षागत्र ेवे अज्रज् रक्षागच्छ यत्कलिं जहने रक्षतव भवे भाष्यं ततोऽवहे रामोवा जज्ञे उपदेयनाश्च प्रनहरे वृत्तां स्ववृत्तात् एतसै सहैच्छः अत्त्येव लोके परिपक्ते साधगिस्माहेच्छः अत्त्येव लोके परिपक्ते उभयो एव लोकजः परिमस्ति स्वाहेत्याः अपरिदय मा एस्मै स्वाहेच्छ हरिभोर्गं हे मोत्करं नवगमे सङ्करञ्जहोजे पाठस्य सन्दस्ये त्याह त्वय लोकाः इमानयलोकान्धे अद्बुदा यस्वाहेत्याहं त्वारम् वादले स्वहे च यबुनाय स्वाहे च चोरे वासं सुमा कन्या गुरय वादले भोमा नमो लूंथे समुद्रय स्वाहे च समुद्रय वास्नोमि कन्याय स्वाहे च पचने वास्नोमि अन्ताय स्वाहे च अन्धय वास्नोमि पारथय स्वाहे च अधो नय महात्मने जदे स्वाज्यते सहेच्छतः तां धर्मधां परिक्षे अवरात्रे यमवन्दे अतोरात्र्येव मुजे दृष्टये तव नय जीवं अनतं माहि भुजारे अवरात्रे मोहनेद पुनरे स्वाज्यते सहेच्छते सहोदये जय जय देवघोदि पुजाय स्वाहा लक्काय स्वाहा लोकय स्वाहा तुजिदेवघोदि अभवनाय स्वयाय जयमहाय विभवार्चा करोति तेते चस्वनामादिघोदि उभयोरेहि नमो भगवानां जयंगोदि आजनाय स्वाहा प्रायणाय स्वाहे चद्द्यालयोघोदि सर्वेभ्यः नमस्क्कम नगुणअर्जुन दामन्गोदि har ne sa har online fire you will go manjhane o parama vidandam bhagavya vikramade gre sa har online fire sa head kya hai if i do have reason i can have sa har oma ne so re murga viksha jode o parama vidandam bhagavya vikramane सृजयेत् सः १०० जायत् स्वाहे तदेवं चनेन मेकान् जोदे तदेवं मुजेत मेदेवोखां वावदवाणां पञ्चतलां तेनेरोखां अजावाति तेने मुन्ताः तेरुत्पां लोकः स्वकत्तु अगस्तवटे भोज्यनां न कर्मण्येत्तु वेदता जोदे तूने वा तेन सर्वेते अग्ने स्व ङ्गे हङ्गेरक्ष्यङ्गा गङ्गा देवयम् परात्मयम् येदा ये सदास्मास्मास् तेदै क्वाएतत्सुमालिग्रोये उदैने वेणुदते होदते तस्माहुलेयत्स्वाहे सूर्यवन्द्योये तयोमाहुयेह पुष्पेयो ज्ञापयन्सुते होएयो ज्ञाहा तरेवहुतेवने परक्यता सह हेवन्को योमान्य होले आयसताना जस्ताव जय एवस्तो वेदवतिच्यमा ज्ञाय होले कार्यावे देवा वाउया कार्यावे वाउिथे पुक्ष्या जस्ताव जस्ताहे शरम भुमनांत होले असवा महा अन्नम बा महा अजोना नैजं वेले पयवा ब्रह्म नञ्जागले सर्वरुढे भंभाकुन्दे लोके पयमदे लोकं भालुन्दे तासि नमो देवनाः खगिज्योति सर्वरुढे रमभाकुन्दे लोके जुमेवदवजवरुढे वसुधा इन्द्राणि चङ्गच्छरे अजञ्जोति सर्वरुढे समागिन्दे लोके अम्बरे ब्रह्मये सुभांन्दे तस्य जयमस्तु आर्योऽलोके एतद् भागुणोऽलोके अन्दरे स्नेहागो हिरे सूत्रानुषाय जैन दिक्षने आर्योऽलोके एव हिते महागुणनिभावे पदोभे जगत्महामुंजे कस्स्या विद्या एव रथा सोऽयोऽस्ये जनमहामुजे तवये अनुग्रहलोभोऽस्तु नय हरेता अनुषाय जैन दिक्षने ओमि नमः नारायणाय तवनाय जनोवनाय यस्य ज्ञानं तवने अनाज्यश्चवलखे मनोहर्भादवदिमागो साये ज्ञानं करोति ओषोनां वृत्यं जानाय स्वाहा ज्ञानैस्वाहा ज्ञानैस्वाहे दमति होमानं करोति स्वगतं वक्षनमदके दिलाय स्वाहा दिलाय स्वाहे करोति जोदि स्वर्गस्य लोकशत्रोक्ये स्वाहन्तः लोकाप्रिमाने लोका स्वर्गस्य लोकप्रवर्षे न्द्रहोरे <transitioning forward into property> स्वर्गच्छाय माध्येः सर्वप्रदीप्तेः ेदयज्ञानाम् jalae swaha jate pae cha na jho hari so jastala kasaramake eva yo bhavanti sneela anera anya na yo bhavante yena dikum senyachane jastara so vaipasto pasyavittei bailava maharopa pala so bharama anera anya tatudana yo bhavante राज्यशाले कविपुण्डस्य अस्य अवध्यन्त्यस्त्वस्य आत्मा वैवे आत्मनामन्येषाम् छलोनामल्यन्ते केरलशाखायामश्वः हो वेदः त्यये राजुराग्यसंहत्यये भवतः ग्रन्थस्यावलभ्ये एकविंश सम्पद्यन्ते एकविंश सर्वे लोकाः स्वानुसमाचारः तेन त्यनेकविपुंसः एतदो अग्लोकः भवन्ते न्दे स्व प्रज्ञा हस्तव्यास्त प्रज्ञाने एव कवचस्तनागस्तरमस्य सिंहरौषे सामैवर्गः हिंडलोदे मक्केदरेना सदा पद्मौ महीध्रिणे उपस्थायापद्माभ्यः अवशोद्धोद्गताः पद्मायन्ते राजा केवने वदनानिदश्रौने जयत्याः राजा वचोवष्टा पद्महुभिः अकेना नराणां ते अल्पसामनो देवाकृษने तनैं नपाद्रोदि दोलभेहन्यां तोदेहं गदवसादि देवाणेसु प्रजासुताः सोविरनश्चोदेदेवमेद्वानः स्वाङ्खलर्गमेते पुदोवै यक्षना यक्षप्रलावरे यत्र भगोन्नि यञ्जनते यक्षालेवदिक्क्षमभयन्गे हस्तं दवराङ्गां वृञ्जनं ौर्भाग्यमेक्यमहन्ते <laughs> ुकः सत्यये स्यामेवले ौर्यम् वनक्षम् उच्छय उच्छेतमेतम् भवे प्रजा अभिनन्द्यश्च एकादशः एकादशात् Oh uh -huh. यत्र रेतेन तेन हम्सास्तु परिदोषो यारेच्छ सर्वगेकलान् तादितेति परमाले नस्तुतेति सस्तवो वावोन एवतयै नैनं एतक्क्तो दरेण मता न समाले कयादि नयच्छहा पालये स्मरणा पालयत् वर्षान् वर्षान् भाक्ष्य वचये तनारे हविगो वेदत्त्वं गते एवं <iong> वा लोकः स्वर्गस्य लोकस्याभिलत्य इन्द्रियोबन्ध आदित्या एतौ आज्ञम् ततो लघते ते, ते, ते न मासेन भवति लिखे पश्यो ललन्ते सुयावरे नशोहं तत पश्या शिवे वात्सल्यं सत्तजरे हार भातेन भवस्यन वक्रांते आगी भवन्ति राय प्रचये ब्रह्म ब्रह्माक्षल मे वाक्षिणाय प्राष्ट स्मрост इस्डेला और क्यास्द्राः तो हीडरा त्बाद प्लाद आध्योगाई तिर्वाद रे लगाइब लेओड जाएंदा अप्रेघ्ध्याई है इंहिति राamे सब अथर प्लाद गझेरे माज़ मेशें को गज Vegard outro गझेरे Μाहिए उतिक्ने मिशो यमे कलय्या तासुमे महाविधे टेकेत्रादेशे च चाह सर्वमेकला अन्नते लवण्ढे कपसेरागिरि रमेशः अलोमादित्ये नौमिते निन्दने एतने लवण्ढे वचिक्चार्य वरचाम सन्नावेदा ्याः हे जल वृक्षामित्रा भेत्याः ये भवन्धे प्रच्छामित्याहे समस्व समवेदमे नाबन्धे प्रच्छादप्प अवयोः ब्रह्मरे माधप अवयो ब्रह्मवचन मेमाबन्धे समाने तस्मात् प्राणा क्रमधेन तानाय सहा यनाय पदे नमः कर्दमहावरेश्वरये नमः तानय वासुन्दराय नमः नमाः तानय वक्रतुण्डये भजे स्वामिने सन्तोषं जिनवाध्यनां लयसमात्यानां धीनां सर्वजगम् अलमये स्वानेच्छः अपि नामे सिद्धवदे असोदनयेरे माञ्ञास्मै हिन्दुने त्रक्पयन्ते हेरिनाका एतमेन लोके जजोने त्रक्पयन्ते सम्भर्जिनिहे स्रगारवा तुदेनियम सुजये तववादेन चक्षनाः समने हेके गृहमन्तवरे तारे त्रक्पयन्ते तमे मुदे यम पिदैयुक्ते मोदानहेते हक्खले लेणानां स्वयनां केन वादनेत्स्य अहर्यलेना उपनेते वरगे लखेम्बां दाणिक्स्य स्वजनेन अंडगै जायते आधमयानि पशमानं स्वजायेन पदयत्स्य तदावे पशवमेत्तः भयालयो मसोदरा तस्मिन् हस्ते यत्मयः अन्तरिक्तहरण्यः अवान्तरिण्यः श्रीराष्ट्रमस्य य राक्षेलो क्षयो हे रमये काशयः शन्दैवाय राय अवट्चाम बदबने रिष्या, अत्मा चाया बदोन्य पष्यवे, स्कोष्णाय रड़ियारा बोराय धनारि रिष्या, अत्मा आवेजे वक्रन्न विल्जंदे, इमेजे काज़ उंदिकेष्या, विद्वेज़ उंदिका, आट्को वस्पनेजा, इंदे वास्मे राक्कं� आदरं मध्येन वदित्याह वितेह वत् तां सम्रं तस्मात् दृष्टं नत् कस्मात् वा सम्यकं कालम् आरादने वदानं वितेह इयमेव आराधनां करोयतां आज्ञाने विन परिचारे हकर्मक्तेस्रं वितेह स्वेयं दृष्टं नत् चेव वा वितेह वसुभागस्य गन्तव्यम् प्रणामः पाश्रं मुच्छे कार्यने विश्राम्य तस्माद् आगतं नरासंगं कलायेन तपस्मानसंजे एरिञ्जनो दमनन्ते सदेकरां न्नां कार्यं विरमल धीमकेन रमन्ते तनावे वदनं तनामे वासुन्दरे पुनः सम्फलितम् नाशब्दृगेत्सः श्वेत पुनस्तम् फलविते सन्देनाश्व पुरुषमालफले वैराजे गुरुढः राजमेवालफले असो अन्नम् अन्नमे वात्यो वा अश्वः रामो श्रे वा शतम् श्रियमे वा चन्द्रमे वादे असो अन्नम् वैरोधे अजापदे भूमे असोच्च भोगा वृक्षमे आरन्धे पर्यज्ञकृतम् पुरुष्या विश्वासञ्चलभ्ये कष्टादमोष्टव नमः भवन्तिैताः अभिजिता अभिभृतां सन्ति प्रथमेन ऋषसेन कृते नाया नामुत्सरे वह्ने हे कटिपुंसे प्रतिष्ठायाम् प्रतिष्ठले हेकटिबुंसा प्रतिष्ठाया ऋसोरन्वालोहरे ररो वृक्षाले रवस्वम् वत्सरः ऋश्चैवम् वत्सरे प्रतिष्ठाय हेमध्यालोहरे छत्वयः कृतम्भवन्यः अन्येवा एते वृषवाः लभ्यन्ते उषयाभ्राम्याः कुषयवारण्याः अभयवलोकेन समर्थयति अथो अन्नेव अपदोवायते यदजाभयकार्याश्च एतवः यत्सौ शौचायन् पशोः समे अन्नालभते त्या भवन्ति अनभिय अवरेयन्नवशेतानबन्ध्या भवन्ति अन्त ब्रह्मवक्षतमन्धे सौरवार्योभजे अवरहात्राणामभियत्ये अशुधर्मेण मेधेन इदने सुमयो वादे हषुभिरेव मेधेन हृदये हर्यज्ञकदावत्सलम् जनाः सत्कारा अजापजनकामेत महानम् नादस्यामिले स एतावस्व मेधे महिमानामवस्तु कामगन्नेतामेत महानम् नाता भवने कष्टामनेत महानम् नादस्यामिले स एतावस्व मेधे महिमानौ ग्रन्थेता महाने मान्नातो हिमानमेव क्यामयि भवान् राजा मयि वा यद्भवामयिम्न भेदत्व यजने हिमानमेव राज्येन भेदपरिग्रन्थादिताः स्वाहकाराः वैक्ता स्वाहा हेवाभ्यन्ते हेभवान् महिम् न भेदत्व यजने श्वः हैत्राया मत्यम् कुर्यालयेवनन्दध्याय सेनान्तज्ञत्राभ्याम् मञ्जोगाच्चता प्रतिभ्याय बाहुले जहोरे न्दधाय स्वाहे मञ्चधम् अपरजामे सत्यं यामत्सारमहे अदेदानममहे एतौ अभिधमन्ता तदोयेवा भवन्नः अनास्राह स्थितसगद्रं ययारं साधयनागत के परतः प्राहा अनासद्रलुज्यहोरे गोरेण प्रथमं उदिन्तहोरे अदनोरे गोद्राह ज्ञस्मित् प्रगले रजोनन्दे हथ अयत्र एतावदलभोजने हरत्र लब्द्रजोनभिमञ्जने हस्तकलेन अथोहारम् होत्प्रकलेव भजोनन्दन् प्रधाने हथोत्र एतावदलभोजने हरत्र लब्दोनभिमञ्जने ेव प्रजा अभिमञ्जने अस्वस्थ राम हरस्वस्वामी हृस्व स्वामीय समयवे न जोदे ैवमात्रे हायद्वौ हसो हर्पुजले सत्यगुञ्जरात्रे अवमध्ययने अश्वस्थमेवम् भक्त्वा अश्वत्समीयम् अस्तो मास्वस्तोमीयम् अश्वस्तोमीय मत्सामलायो अस्माभिमला हुत्वा रामाहुलिञ्जो करण्यामुत्सरामाहुलिञ्जभया अप्पले क्षायात् तवेदा दिमरां अम्बलजं होति त्रेक्क्तेत् तेन रावरत्तमेधम सदजना ओवखा चित्तम महासम्मने तैयैकेन बुद्धं इत्रे तैयैकेन बुद्धं मानम इन्दने सनेक्खे धरन्ते इत्रे सनेक्खे धरन्ते इन्दने प्रेतेनावेत् चत्वायै तस्सम सर्वितुं इदेवे अत्तमेवदनिमच्छते वन्दे न्देद विना स्व वाचावि अश्वस्थेतये हस्तमेव धनं मित्रे चायम् फले हस्तस्यै कायम् प्रजाः क्षेम्या वन्दे यच्छादय हस्तमेव धनम् मित्रे हस्मार्थिवानक्षेतरे चादयचय लायं फले द्रोने होराष्ट्राभ्यामेव स्वभाम् यद्दे श्रियमेव किं तद्धत्तः गुरु श्रियमच्छ हरे श्रे ब्राह्मयोगायः मनः सत्यगुङ्गारण्यः च ब्रह्मनाय क्षत्रय ङ्गामेन हरे राष्ट्रगुण्डायेन सप्तगङ्गाः ब्रह्मणे वेदो तथा हिष्ठाभोक्तम् इष्टाभोक्ते नैवेन अध्यैरे आविश्व सागुतम् रामहारुण्यः सद्यम् वैनारुण्यश्चेन पुंसदमध्यै एतत्कर्तवैत्याः करव्यान्ते षड्वामः परिगच्छते लो गादेव हो गै लो गै मृत्य गोविन्दे भवे स्वाहा आमरक्ष रमित्रं गुरुदेव सच्चिदेसाई एकस्मने एकानञ्जुयादे एवो नमः वत्सलं ज्ञेयं वत्सो हरे नमो वत्सलाः वखेलाः वत्सलं वखेवेदे दवनाच्छाये सः हस्ते उदावनं लोदे रोहाच्छाये वामेदे सदा कृत्वाच्छाय वास्यात् क्षमाय जयगे रिञ्जेनदे या भ्रमणाचार्याय भ्रवणाचारे यत्रो्याये स्वाहे बाहुञ्जोच्चारेन्द्रहोदे हेलागम् भवे मन्द्य बाहुन्य भ्रवणात्याम् विलाञ्जगानाचार्य प्रजागानाम् नाम् भगुम् मन्दे यत्ता भगवत्तमाहुलिम् जहोरे नमवेदने कृषकलिङ्गाक्षत्रमर्थम् जहोरे एतदेवर्णश्च लोकम् रोपे देववर न्यम् गणौदे ध्ययने प्रजामुदयत्याः राजामध्ययने नमोऽ सर्वोवाजम्भयाः आर्यनाय एलयना गुणतला नाना ऐन करउदे माथे हि हि प्या आर्यनाय एलयना मदास्ते उपागलै स्वाहे चलागले होजे अरद्धाने स्वाहे ने इच्छा जहोजे उपाहे स्वाहे जुने जुने होजे केना लोकाना मतिष्ये उपाहे जण लोकने जत्रदे ओष्टमेने जदे भवदावृन्दः करे भव भवन्ति सर्वे भगवद्विण्डेन सौम्यञ्जनम् तावित्रे भवने स्वमहायाः साम् व्यञ्जने पादैवेणम् विलज्जरे भवने सर्वोदयम् विलज्जने हेनाभिनम् देवतानेन हरतो हैभवने कोचन्द्रवणस्याय कोशालयेण सेलम् विनज्जले हस्तभवने सन्दरं नेमये देवताभिमन्य हेमयवत्यो महा स्मः स हैलम् देवतयाभिनञ्जने हरतो हैभवने ऐश्वर्यं राजते वरं निर्गुणं च धरे विनागच्छते जम्मा जीवैश्वरेदा जगदहरेण चित्नाम दैवं त्वं भवानीरि अहैतुत्यमार्गक्षने क्षेत्रीलालं आत्मनेन भोमरेत् सर्वबाह्यं पौर्ण्यां पय्याञ्च भरणं हि देवाणां वात्स्वाः भगमनावायेदेविना स्याश्वमेधाेन हैलं चले भवने तेयान् भवने पदावसम्भवधयान् ैद्य <59an> <laughs> संवत्सरः संवत्सरे हेकरैः सर्वगम् भवेतत्र विदुभवये हेतवये प्रभवन्नाम यज्ञः सर्वगम् हलीनत्रभवये शत्रैलेन यज्ञेनैलन्दे हेतवावो यान्नाम यज्ञः सर्वगम् हलीनस्वस्यैलेन यज्ञेनैलन्दे हेतवैदयस्थान्नाम यज्ञः सर्वगम् हलीनत्रमयस्तवदे शत्रैलेन यज्ञेनैलन्दे हेतवैपितु नाम सर्वगम् हलयत्सुलम् भवते यत् वैतेन निश्चयेन हेतवैल्यालप्तो नाम यज्ञः सर्वगम् हलैतृप्तम् भवते यत्रैतेन निश्चयेनैलन्ते हेलवैप्रदशिलो नाम यज्ञः सर्वगम् हलैतशिलम् भवते यत् वैलेन निश्चयेन हेतवैले निश्चयेन यज्ञः सर्वगम् हलयस्तरेणश्च भवने हे प्रैतय निश्चयेन ऐदन्ते हैवे ब्रह्म निज्ञः आप्त ब्राह्मणा प्रैतय नित्यन्दल्यासे नाम नित्यः हे प्रेतेन नित्यय नैलन्दे हैलवेत्यः श्रेष्ठ क्षेत्रेण निश्चयेन पुत्रो नाम यज्ञः तत्र प्रजाः क्षत्रेतेन निश्चयेन क्षमयन्ते समर्थयन्तेपदिकमेवेन ज्ञायते ैवनागम् लोपम् लोपेनैव्यकशभवजे त्रैलोवध्ये रस्य लोकस्यात्यै अत्यलैर्लोकस्य लोकम् दात्यम् अन्धस्य गच्छति रामः शिवोभिरण्यक शिवो आदित्यश्च प्रजापदयः लोकम् अन्तरिक्षे वाय प्रजापदय स्वानित्यम् सलोकदानौजे एतानिध्यम् लोकदामाप्नो ैवन्नवरेण स्वयम् भोजने अस्माकुम्भवर्गे चार्पयन्ते अस्मा तस्माद्वाजी प्रयोजनायम् युध भवनाम् कृ यणम् आवकास्वधौ अर्कास्वधामे प्रजालभ्य एकः संरक्षणः प्रजामजनाध्वामस्व भवत्यामेधा भवस्वधा एवम् मेधा हैल प्रजावजना मध्वामस्व भव सत्पादप्रजापदे प्रशोरामलोकमः हा प्रतिलोपोचारम् वेद सर्वाणि भोगानि सम्प्रत्यानुभते फलेन सम्भवच्छदानुभवन्ते सूर्येण एवम् वेद एतत् देवताम् भोगम् मेधानानुभन्तः यज्ञमेव यज्ञेन पर्वताेनैवेन अपधर्मानैवते एतत्समये लोकेन भवन्तौ परङ्ग हिबे स्वलभे प्रेष्ट यं प्राणो अस्पने लोमं लोमञ्जहोर अस्पश्च लोमं लोमञ्ज बले च अस्पक्षमे जक्ष बले वेना अस्पश्चैव भले भले जोगे हरे भगवनो न अस्पत्यक्षले हरस्वस्त्रै नेध्यक्ष मदेहुणा हस्वस्थमे अध्यक्ष मलयदेध्यक्ष विमक्षलम्बै वदेऽध्यक्ष विमक्ते विमक्षणे योजे हसौ मागच्छदे लक्ष्य भवने विवर्तने जोरे एतद् अस्पच्छ मेध्यक्ष विवर्तने निवर्तने सुकः समाप्तः